चमकखनम् अनुवाकं टन् गर्भाश्च च गर्भा गर्भाश्च मे च गर्भा गर्भाश्च मे च मे च च वत्सा वत्स च च मे मे वत्सा वत्स मे मे वत्साश्च च वत्स मे वत्साश्च वत्साश्च च वत्सा वत्साश्च मे मे च वत्स वत्साश्च मे च मे मे च च मे स्त्रियास्त्रियविर्मे च च मे स्त्र्यविः मे मे त्रियविश्च च त्रियविर्मे मे त्र्यविश्च त्रियव्यश्च च त्र्या व्ये स्त्र्याश्च मे मे च त्र्याव्यस्त्र्याविश्च मे त्र्याविरिति त्रि अभिः च मे मे च च च मे स्त्र्यावि त्र्यावि मे मे त्र्यवी त्र्यवी मे मे त्र्यवी च छत्र्यवी मे मे च त्र्यवी च च च मे मे च त्र्यवी च मे त्र्यवीति त्रि अवि च मे मे चमे मे च च मे दित्यवाट मे दवादित्यवान् मे मे दित्यवाट् च मे मे दवाच्च द्वितीयवाट् च मे मे दित्यवादित्य वाट च मे मे च च मे दित्यौहि दित्यौहि मे च च मे दित्यौहि मे दियोौहि दिौहि मे मे दिौहि च च दित्यौहि मे दित्यौहि दित्यौ हि चमे च दित्यौ हि दित्यौ हि चमे चमे च चमे पञ्चाविः पञ्चावर्मे च मे पञ्चाविः मे पञ्चाविः पञ्चाव्यर्मे मे पञ्चाविश्च च पञ्चाव्यर्मे मे पञ्चाविश्च पञ्चाविष्ट च पञ्चाविः पञ्चाविष्टमे मे च पञ्चावः पञ्चाविष्टमे पञ्चाविदि पञ्च अविः च मे मे च च मे च च च मे पञ्जावी मे पञ्जावी पञ्जावी मे मे मे मे पञ्जावी च पञ्जावी च च पञ्जावी पञ्जावी च मे मे च पञ्जावी पञ्जावी च च मे च चमे त्रिवत्सस्त्रिवत्सो मे च च मे त्रिवत्सः मे त्रिवत्सस्त्रिवत्सो मे मे त्रिवत्सश्चिवत्सो मे मे त्रिवत्सश्च त्रिवत्सश्च चत्रिवत्सस्त्रिवत्सश्च मे मे चत्रिवत्सस्त्रिवत्सश्च मे त्रिवत्स इदि त्रिवत्सः च मे मे चचमे त्रिवत्स त्रिवत्स मे चचमे त्रिवत्सा मे त्रिवत्स त्रिवत्स मे मे त्रिवत्स च त्रिवत्स मे मे त्रिवत्स च त्रिवत्स च त्रिवत्स त्रिवत्स चमे मे च त्रिवत्सा त्रिवत्सा च मे त्रिवध्येदित्रिवत्सा चमे च मे तुर्यवा तुर्यवान् मे च च मे तुर्यवाट मे तुर्यवा मे मे तुर्यवाट् च तुर्यवान् मे मे तुर्यवाच्च तुर्यवाच्चर्यवा तुर्यवाच्च मे मे च तुर्यवाट् तुर्यवाच्च मे तुर्यवाडधि तुर्यवाट चमे मे च च मे तुर्यौहि तुर्यौहि मे च च तुर्यौहि मे तु्याुर्याौही मे मे तुी च तुर्याही मे मे तुी च तोर्ौ ही चतु तर्ही तुर्या मे मे चतुर्ौही तर््यां चमे मे चचमे च च मे पष्टवात् पष्टवान् मे पष्टवाद मे पष्टवात् पष्टवान् मे मे च पष्टवान् मे मे पष्टवाच्च पष्टवाच्च च पष्टवात्पष्टवाच्च मे मे च पष्टवात्पष्टवाच्च मे पष्टवादिति पष्टवाद च मे मे च च मे पष्टौ हि पष्टौ हि मे च च मे पष्टौ हि मे पष्टौ हि पष्टौ हि मे मे पष्टौ हि च च च च च च मे मे च पष्टौ च मे च मे मे च चम उक्षा म उक्षोक्ष मे म उक्षा चोक्ष उक्षा च चोक्षोक्षा च मे चोक्षोक्षा च मे च मे मे च च मे वशा मे च च मे वशा च चवसा मे मे वशा च वसा चवसा वशा च मे मे च चम वृषभऋषभो मे च मरुषभर्षभो मे मरुषभश्च च वृषभो मे मरुषभश्च वृषभश्च च वृषभ वृषभश्च मे मे च वृषभर्षभश्च मे च मे मे च च मे वेहद्वेहन्मे च च च मे वेफद मे वेषद्वेहन्मे मे वेषच्च चवेहन्मे मे वेहच्च वेहच्च चवेषद्वेहच्च मे मे चवेषद्वेहच्च मे च मे मे च च मे नड्वान् नड्वान्मे च च च मे नड्वान् मे नड्वान् नड्वान्मे मे नड्वान् च चानड्वान् मे मे नड्वाञ्च अनड्वाञ्च चानड्वाननड्वाञ्च मे मे चानड्वाननड्वाञ्च मे च मे मे च च मे धेनोर्धेनोर्मे च च च च च च धेनुश्च च धेनुश्च धेनुश्च च धेनोर्धेनुश्च मे मे च धेनोर्धेनुश्च मे च च च आयुः म आयुरायुर्मे म आयुर्यज्ञेन आयुर्यज्ञेन आयुर्यज्ञेन यज्ञेनायुरायुर्यज्ञेन कल्पदां कल्पदा यत्नायुरायुर्यज्ञेन कल्पदाम् यज्ञेन कल्पदां कल्पदा यज्ञेन यज्ञेन कल्पदां प्राणप्राणकल्पदा यज्ञेन कल्पदां प्राणः कल्पदां प्राणः कल्पदां प्राणो यज्ञेन यज्ञेन प्राणः कल्पदां प्राणो यज्ञेन प्राणो यत्नेन यत्नेन प्राणप्राणो यत्नेन कल्पदां कल्पदा यत्नेन प्राणप्राणो यत्नेन कल्पदां प्राण इति यज्ञेन कल्पदां कल्पदा यज्ञेन कल्पदामपानो अपान यज्ञेन यज्ञेन कल्पदामपानो अपान कल्पदामपानो यज्ञेन यत्नेन पान कल्पदामपानो यज्ञेन अपानो यज्ञेन यज्ञेन पानो अपानो यज्ञेन कल्पदां कल्पदा यज्ञेन पानो अपानो यज्ञेन कल्पदाम् अपान इत्यप अनः यत्नेन कल्पदां कल्पदा यज्ञेन यज्ञेन कल्पदां यनो व्यान कल्पदा यज्ञेन यज्ञेन कल्पदाव्यानः कल्पदाव्यानो व्यान कल्पदां कल्पदाव्यानो यज्ञेन यज्ञेन व्यान कल्पदां व्यानो यज्ञेन व्यानो यत्नेन यज्ञेन व्यानो व्यानो यज्ञेन कल्पदां कल्पदाय यत्नेन व्यानो व्यानो यत्नेन कल्पदां व्यान इति वी अनः यत्नेन कल्पदां कल्पदाय यत्नेन यत्नेन कल्पदां चक्षुश्चक्षुः कल्पदाय, यज्ञेन यज्ञेन कल्पदां चक्षुः कल्पदां चक्षुश्चक्षुः कल्पदां कल्पदां चक्षुर्यज्ञेन यज्ञेन चक्षुः कल्पदां कल्पदां चक्षुर्यज्ञेन चक्षुर्यज्ञेन यज्ञेन चक्षुश्चक्षुर्यज्ञेन कल्पदाम् कल्पता यज्ञेन चक्षुश्चक्षुर्यज्ञेन कल्पतां यज्ञेन कल्पतां कल्पदा यज्ञेन यज्ञेन कल्पता गश्रोत्र गश्रोत्रं यज्ञेन यज्ञेन कल्पता गशोत्रम् कल्पताग्त्र ग्रोत्रं कल्पदां कल्पताग् श्रोत्रैयज्ञेन यज्ञेन श्रोत्रं कल्पदां कल्पताग् श्रोत्रैयज्ञेन श्रोत्रयज्ञेन यज्ञेन श्रोत्रघ श्रोत्रयज्ञेन कल्पतां कल्पतां यज्ञेन श्रोत्रघ श्रोत्रम् यज्ञेन कल्पदां यज्ञेन कल्पदां कल्पदां यज्ञेन यज्ञेन कल्पदां मनो मनः यज्ञेन यज्ञेन कल्पदां मनः कल्पदां मनो मनः कल्पदां कल्पदां मनो यज्ञेन यज्ञेन मनः कल्पदां कल्पदां मनो यज्ञेन मनो यज्ञेन यज्ञेन मनो मनो यज्ञेन कल्पदां कल्पदा यज्ञेन मनो मनो यज्ञेन कल्पदाम् यज्ञेन कल्पदां कल्पदां यज्ञेन यज्ञेन कल्पदां वाक् वाक् कल्पदा यज्ञेन यज्ञेन कल्पदां वाक् कल्पदां वाग्वाक् कल्पदां कल्पदागं वाग्यज्ञेन यज्ञेन वाक् कल्पदां कल्पदां वाग्यज्ञेन वाग््यज्ञेन यज्ञेन वाग्वाग््यज्ञेन कल्पदां कल्पदा यज्ञेन वाग्वाग्यज्ञेन कल्पदां यज्ञेन कल्पदां कल्पदा यज्ञेन यज्ञेन कल्पदामात्मात्मा कल्पदा यज्ञेन यज्ञेन कल्पदामात्मा कल्पदामात्मात्मा कल्पदां कल्पदामात्मा यज्ञेन कल्पतां कल्पता यज्ञेन कल्पतां यत्नो यत्न यज्ञेन यज्ञेन कल्पता <Sess> <Sess> कल्पदां कल्पदां यज्ञेन यज्ञो यज्ञो यज्ञेन कल्पदां यज्ञेन कल्पदां कल्पदा यज्ञेन यज्ञेन कल्पदां कल्पतामिति